अथ त्रिपञ्चाशदधिकशततमोऽध्यायः वैशम्पाय न उवाच प्रबुद्धास्ते हिडिम्बाय रूपं दृष्ट्वातिमानुषं विस्मिताः पुरुषव्याघ्रा बभूवुः प्रथया ततः कुन्ती समीक्ष्यैनां विस्मिता, विस्मिता रूप उवाच मधुरं वाक्यम् सान्त्वपूर्वमिदं शनैः कस्य त्वम् सुरगर्भाभिः का वासि वरवर्णिनी केन कार्येण सम्प्राप्ता तव यदि वास्य वनस्य आचक्ष्व मम तत्सर्वम् किमर्थम् तेह तिष्ठसि यदेतत्पश्य सिवनं नीलमेघनिभं निवासो राक्षसस्यैष हिडिम्बस्य ममैव च तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भाविनी भ्रात्रा सम्प्रेषिता मार्ये त्वां स पुत्रां विघांसता क्रूरबुद्धेरहं तस्य वचनादागता अद्राक्षं न वहे महाबलम् तथंसूताे विचरता शुभे चोदिता तव पुत्र मन्मथेन वशाग